श्रीहर नम दसमस्क उत्तरा पंचाश्त श्रीशुक उपवाचा अस्थिप्राति कंस्य महिष्य भरदर्ष भ्रृते भर्तरी दुखाते युस्म पिर्गृहा पित्रे महधराजाय जरासन्ताय दुःखिते वेदयाञ्चक्रतुः सर्वम् आत्मवैधव्यकरणं सतधप्रियमाकर्ण्य शोकामर्शयुतो नृप अयाधवी महीं कर्तुं अक्षौहिणीभिर्विंशत्या तिष्ट्रुभिश्चापि संवृतः यदुराजधानीं मथुरां न्यरुणा सर्वधोतिसम् इरीक्षतद्बलं कृष्ण उद्वेलमिव सागरं स्वपुरं तेन संवृद्धं स्वजनं च भयाकुलम् चिन्तयामास भगवान् हरिकारणमानुषः तद्देशकालानुगुणं स्ववाधारप्रयोजनं हनिष्यामि बलं ह्येतत् भुवि समाहितं मागधेन समानीतं वश्यानां सर्वभूभुजा अक्षौहिणीभिसङ्क्यतां भटा स्वरथकुञ्जरैः मागधस्तु न हन्तव्यो भूयकर्ता बलोद्यमम् एतद्धर्तोऽवतारोऽयं भूभारहरणाय में संरक्षणाय साधोनां कृतोन्येषां वधाय च अन्योऽपि धर्मरक्षायै देहः मया विरामयाप्यधर्मस्य काले प्रभवतः ध्याति गोविंद आकाशा सूर्यर्चसो रथवस्थित सद्य सूध सपरिश्च आयुधा च दिव्या पुराणा यदुश्चया दृष्ट तृषिकेश शङ्कर्षणम् अध ब्रवीत् व्यसनं प्राप्तं यधूनां त्वावधां प्रभो येशते रत आयातो दयिधान्यायुधानि च यानमास्ताय जह्येध्यसनात् स्वां एतदर्थं हि नौ जन्म साधूनामी स शर्मकृतं त्रयोविंशत्यनीकाक्यं भूमेर्भरमपकुरु एवं संमन्त्र्यधासार्हो दंशितौ रतिनौ पुरात् बलेनाल्पीयसावृथौ शङ्कं धद्मो विनिर्गत्य हरिर्धारुकसारथिः ततो भूत्परसैन्यानां हृदि वित्रा सवेपथुः तावाहमागतो वीक्ष हे कृष्णपुरुषा धम न त्वया इच्छामि बालैनैकेन लज्जया गुप्तेन हि त्वया मन्ध नयोत्स्येया हि बन्धुहन् तव रामयति श्रद्धा युत्यस्त्वधैर्यमुद्वहा हित्वा वामच्चरैश्चिन्नं देहं स्वर्याहि मां जही न वैसूराविक धर्यष्यन्त्येव पौरुषं न वचोराजन् वचो राजन् न तु रस्यमुमूर्षतः श्रीसुकमुवाच जरासुतस्तावभित् विस्तृत्य माधवो महाबलौघेन बलीयसावृणोत् ससैन्ययानध्वजवाजि सूर्यानलौ वायुरिवाभ्ररेणुभिः स्वपर्णतालध्वजसिग्निथौ रथौ अलक्षयन्त्यो हरिरामयोर्मृदे त्रियः पुराट्टालकहर्म्य गोपुरं समाश्रिता संमुः सुचार्दिताः हरिः परानीकपयोमुचामुहुः ोऽसीलिबुकात्युल्बणवर्षपीटितं स्वसैन्यमालोक्यसुरासुरार्चितं व्यस्पूर्जयत् सार्गसरासनोत्तमं गृह्णन्निषाङ्घात चन्दतच्छरान् विकृष्य निरन्तरं यद्वत् निर्भिन्नकुम्भाकरिणो निपेतो रनेकशोष्पा शरौ रतागता स्वध्वज सूतनायक पधातयश्चिन्न भुजोरुकन्धराः रताहता स्वध्वजसूतनायक पधातयश्चिन्न भुजो रुकन्धराः सञ्चिन्त्यमानद्विपदेपवाजिना मङ्गप्रसूता सतसोऽश्रुगा भगाः भुजाहयः पूरुष शीर्षकच्छ हिभत्पय्रहाकुला करोरु मीना नर केश धनुस्तर का युधध गुल सकुला अच्छो वर्त भयानका महामणि प्रवेका भरणश्रम शर्करा प्रवर्ति भया बहो ृधे मनस्विना हर्ष करीः परस्परं विनिघ्नतारिन्मुसलेन दुर्मतान् सङ्कर्षणे नापरिमेयते जसा फलं तदङ्गार्णवधुर्गभैरवं तुरन्तपारम् महदेन्द्रपालितं क्षयं प्रणीतं वसुधेवपुत्रयोर्विग्रीडितं तज्जगदीशयोः परं स्थित्युद्भवान्तं भुवनत्रयस्य यः समीहतेनन्तगुणस्वलीया न तस्य चित्रं परभक्ष तथापि मर्त्यानुविधस्य वर्ण्यते जग्राहविरतं रामो जरासन्धं महाबलं हतानीकावसिष्ठासं सिंहसिंहौमिवौजसा बद्यमानं हतरतिं पासैर्वारुणमानुषैः वारायमास गोविन्दस्तेन समुक्तो लोकनाथाभ्यां व्रीडितो वीरसम्मतः तपसे कृतसङ्कल्पो वारितः पतिराजभिः वाक्यैपवित्रार्थपदैर्नयनैः प्राकृतैरपि स्वकर्मभन्तप्राप्तोऽयं यदुभेस्ते पराभवः अतेषु सर्वानीकेषु निमो बार्हत्रतस्तधाम् उपेक्षितो भगवतामघधान् दुर्मनायय यो मुगुन्तोऽप्यक्षतफलो निस्तीर्णारिभलार्णवः विकीर्यमाणकुसुमैस्त्रदसैरनुमोदितः मातुरैरुपसंगम्य विज्वरैर्मुदितात्मभिः उभगीयमानविजयसोदमागतवन्दिभिः शङ्कुन्दुभयोनेदुर्भेरीदूर्याण्यनेकशः वीणा वेणुमृदङ्गानि पुरम् प्रविशति प्रभो सिक्तमार्गां हृष्टजनाम् पताका विरलङ्कृताम् निर्गुष्ठां ब्रह्मघोषेण कौतुक्रतोरणां निचीयमानो नारिभिर्माल्यदद्यशताङ्कुरैः निरीक्षमाणः सस्नेहं प्रीत्युत्कलितलोचनैः आयोधनगतं वित्तम् अनन्तं वीरभूषणं यदुराजाय तत्सर्वम् आकृतं प्रादिसत्प्रभुः एवं सप्तदशकृत्वस्त्यावत्यौक्षहिनीभलः युयुदेमागतो राजा यदुभे कृष्णपालितैः अक्षिण्वन् सद्बलं सर्वं वृष्णय कृष्णतेजसा हतेषु स्वे स्वनीकेषु त्यक्तो गातरिभिर्नृपः अष्टादशम् असङ्ग्रामे आगामिनि तदन्तर नारदः वीरो यवनः प्रत्यदृश्यत रुरोदमधुरामेत्ये धृश्रुभिर्म्ले च कोढिभिः नृलोके च अप्रदिद्वन्द्वो वृष्णीन् श्रुत्वात्मसम्मितान् तं दृष्ट्वा चिन्त्यत्कृष्ण सङ्कर्षन् सहायवान् अहो यदूनां वृजिनं प्राप्तं ह्यवोभयतो महत् यवनोयं निरुन्धेस्मान् अद्य तावन्महाबलः मागधोऽप्यद्य वा स्वो वा परस्वो वा गमिष्यति आवयोर्युध्यतोरस्य यद्याघन्ता जरासुतः बन्धोन्वदिष्यत्यथवान् नेष्यते स्वपुरं बली तस्मात् अद्य दुर्गं द्विपदुर्गमं तत्र ज्ञातिं समाधाय यवनं घातयामहेम् इति संमन्त्र्य भगवान् दुर्गं द्वादशयोजनम् अन्तः समुद्रे अचीकरत् दृश्यते यत्र हि विज्ञानं शिल्पनैपुणं रत्या चत्वरविधिभर्यधास्तु विनिर्मितं सुरद्रुमलतोध्यान विचित्रोपवनान्वितं हेमशृङ्गेर्दिवि स्पृग्भे स्पाटिकाटालगोपुरैः हे। रत्नकूटै राजतारकुटैकोष्ठैर्हेमकुम्भैरलङ्कृतैः रत्नकूटैर्गृहैर्हेमैर्महामरकतस्थलैः वास्तोष्पतीनां च गृहैर्वलबीभिश्च भी निर्मितम् चातुर्वर्ण्यजनाकीर्णं यदुदेवद्गृहोल्लसत् सुधर्मां पारिजातं च मकेन्द्रप्राहिणोद्धरे यत्र चावस्थितो मर्ध्यो मर्ध्यधर्मैर्न युज्यते श्यामैककर्णान् वरुणो हयान् शुक्लान् मनोजवान् अष्टौ निदपति कोशान् लोकपालो निचोदयान् यद्यद्भगवता दत्तम् आधिपत्यं स्वसिद्धयेन् सर्वं प्रत्यर्पयामासोर् हरौ भूमि गते नृप तत्र योगप्रभावेण नीत्वा सर्वजनं हरिः प्रजापालेन रामेण कृष्णसमनुमन्त्रितः निर्जगाम पुरद्वारात् पद्ममालीनिरायुधः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्दे उत्तरार्धे दुर्गनिवेशनं नाम पञ्चशाद्धमोऽध्यायाः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथमगराजिकी जय